अथ श्रीदक्षिणामूर्तिनवरत्नमालास्तोत्रम् मूले वटस्य मुनिपुङ्गवसेव्यमानम् मुद्राविशेषमुपुलीकृतपाणि पद्मम् मन्दस्मितं मधुरवेषमुदारमाद्यम् तेजस्ततस्तु हृदि मे तरुणेन्दुचूडम् शान्तम् शारद चन्द्रकान्तिधवलम् चन्द्राभिरामाननम् चन्द्रार्कोपमकान्तिकुन्दलधरम् चन्द्रावतां शुकम् ीणाम् पुस्तकमक्षसूत्रवलयम् व्याख्यानमुद्राम् करैः बिभ्राणम् कलयेर्मसदा शास्त्राविष्टातरम् कर्पूरगात्रमरविन्दगळाय दाक्षम् कर्पूरशीतलहृदम् करुणाभिलासम् चन्द्रार्धशेखरमनन्तगुणाभिरामम् इन्द्रादिसेव्यपदपङ्गजमीशमीले द्युद्रोरथस्वर्णमयासनस्थम् मुद्रोल्लसत्कायमुदारकायम् सद्रोगिनीनाथ कलावतं सम् भद्रोदतिम् कञ्चन चिन्तयामः ऊर्दयद्वास्करसन्निभम् त्रिणयनम् श्वेताङ्गरागप्रभम् बालम् मौञ्चिधरम् प्रसन्नवदनम् न्यक्रोधमूले स्थितम् पिङ्गाक्षम् सुब्रह्मसूत्राकृतिम् भक्तानाभयप्रदम् भ्या भयहरम् श्रीदक्षिणापूर्ति श्रीकान्तद्रुहिणोपमन्युतपनस्कन्देन्द्रनन्द्यादयः प्राचीना गुरवोऽपि यस्य करुणा शेषात्कृता गौरवम् तम् सर्वादिगुरुम् मनोज्ञवपुषम् मन्दस्मितालङ्कृतम् चिन्मुद्राकृतिमुक्तपाणिनलिनम् कुर्महे कपर्दिनम् चन्द्रकलावतं सम् त्रिनेत्रमिन्दुम् प्रतिमक्षताज्ज्वलम् चतुर्भुजम् ज्ञानतमक्षसूत्र पुस्ताग्निहस्तम् हृदि भावयेच्छिवम् वामोरुपरि अन्योन्यमालिङ्गिता शशिनिभा चालो नयन्तम् शिवम् आश्लिष्टेन करेण पुस्तकमतो कुम्भम् सुधापूरितम् मुद्राम् ज्ञानमयीम् दधानमपरैः मुद्राक्षमालम्बे पटतरुनिकटनिवासं पटुतरविज्ञानमुद्धृतकराब्जम् कञ्चन देशिकमाद्यं कैवल्यानन्दकन्दलं वन्दे